श्रीहरये नमः अतः सोतभुवाच विदुरस्तीर्थयात्रायां मैत्रेयातात्मनो गतिं ज्ञात्वा घातास्ति न पुरं तया वाप्तवित्सितः यावथ कृतवान् प्रसन्नान् शक्ता कौशारवाक्रदः जातैकभक्तिर्गोविन्दे धेभ्यस्य उपररामः तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्रस्सहानुजः धृतराष्ट्रो युयुत्सुश्च सोतः सारत्वतः पृथा गान्धारी द्रौपदी ब्रह्मकन् सुभद्रा चोत्तरा कृपि अन्याश्च जामयः पाण्डोर्ज्ञातयः सुसुता प्रद्युज्जग्मु प्रहर्षेण प्राणं तन्व इवागतम् अभिसङ्गम्य विधिवत् परिष्वङ्गापि वातनैहे मुमुषु प्रेमभाष्पौघं विरहौत्कण्ठय गाधराः राजा तम् अर्हयाञ्चक्रे कृदासनपरिग्रहम् तं भुक्तवन्दश्रान्तमासीनं सुखमासने प्रस्रया वनतो राजा प्राह तेषां च शृण्वता युतिष्ठिर उवाच अभिस्मरतनो युष्मत्पक्षश्चाय समेदितान् विभद्गणात् मोचिता यत् स मातृकाः कयावृत्यावर्तितं वश्चरद्वीक्षितिमण्डलं तीर्थानि क्षेत्रमुख्यानि सेवितानि कभूतले भवद्विता भागवतास्तीर्थभूता स्वयं विभो तीर्थानि स्वान्तस्तेन गता अभिनः सुगृधस्तातभां तवा कृष्णदेवताः दृष्ट्वा श्रुता वा यतः स्वपुर्यां इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् यथानुभूतं क्रमेशो विना यदु कुलक्षयं नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितं न वेदयत् स करुणो दुःखितान् द्रष्टुम् अक्षमः कञ्चित् सत्कृतो देववत् सुखं भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां प्रीति अभिप्रतर्य मादण्डं अगकारिशो अघकारिषो यावत्तधारसूत्रत्वं शाभात् वर्षशतं यमः युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलं धरं भ्रातृभिर्लोकबालाभैर्मुमुदे परया श्रिया एवं गृहेषु सक्तानां प्रमत्तानां तदीहयाम् अद्य क्रामत्तविज्ञातकालपरमधुस्तरः विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाक्षत राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतं प्रतिक्रिया न यस्येकुतश्चित् कर्हि चित् प्रभो स भगवान् कालः समागतः येन चैव भिभन्नोऽयं प्राणैः प्रियतमैरपि जनः सत्योभियुज्येत किमुतान्यैर्धनादिभिः पितृभ्रातृ सुहृत्पुत्रा कथास्ते विगतम्बयः आत्मा च जरया ग्रस्तः परगेहमुपाससे अहोमहीयसी जन्तोर्जिविधासायया भवान् भीमाभवर्जितं भिण्डम् आधत्ते गृहबालवत् अग्निर्निःसृष्टो धत्तश्च गरो धाराश्च दूषिताः कृतं क्षेत्रं धनं येषां तत्तद्धैर्युभि तस्याभिदेवयं कृपणस् जिजीविशोः परैत्यनिश्च जीर्णो जराया वाससी इव गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः अभिज्ञात गतिर्जह्या स वै धीरमुदाहृतः यस्वगात्परतो वेकजातनिर्वेद आत्मवान् हृदि कृत्वा हरिं गेहात् प्रव्रजेत्स नरोत्तमः अतो दीचिं दिशं यातो स्वैरज्ञातगतिर्भवान् इतोर्वाक्प्रायसः कालः पुंसां गुणविकर्षणः एवं राजा विदूरेणानुजेन नानुजेन चक्षुर्भोतित आजमीडः चित्वा स्वेषु स्नेकभासान् द्रटिं नो निश्चक्रामभ्रातृसन्तर्शि धात्वा प्रयान्तं सुलभस्य पुत्रे पथिव्रता हिमालयं न्यस्त धण्टप् मनस्विनामिव सत्सम्प्रहारः अजातशत्रो कृतमैत्रो हुधाग्नेर्विभ्रान्नत्वा तिलोगो भूमिरुग्मैः गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौभलीं च तत्र सज्ञयमासीनं पप्रश्चोद्विघ्नमानसः गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः अम्बा च हतपुत्रार्था पितृव्यक्वघतः सुहृत अभिमय्यकृतप्रज्ञे अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः सूतौ वाचान् कृपया स्नेकवैक्लव्यात् सुधो विरहर्षितः आत्मे स्मासक्षाणो न प्रत्याघातिपीटितः विमृज्याश्रूणिपाणिभ्यां विष्टभ्यात्मानम् आत्मनः अजातशत्रुं प्रत्यूचे पादावनुस्मरन् सञ्जयौ वाच नागम्बेतव्यवसितं पित्रोर्भक्कुलनन्दनां गान्धार्या वा महाभागो मुक्षितोऽस्मि महात्मभिः अधा जगाम भगवान्नारतः सकृदुम्बुरुः प्रत्युत्याय अभिवाद्याः सानुजोऽभ्यर्चयन्निव युतिष्ठिर उवाच नाहं वेतगतिं पित्रो भगवन्क्व गितः अम्बाबाहतः पुत्रार्था क्व तपस्विने कर्णधारयि वा पारे भगवान् भारधर्सकः अथा बभाषे भगवान् नारतो मुनिसत्तमः मा कञ्चन शूचो राजन् यतीश्वरवसं जगत् लोकाशापालयष्ये मे वहन्ती बलिमीसुधोः स संयुनग्निर्भूतानि स एव वियुनग्नि च यथा गावो नसि प्रोतास्तन्ध्यां वाक्तन्त्यां नाम बिर्बद्धा वहन्ती बलिमीषितुः यदा क्रीटोपस्कराणां संयोगविगमा विहा इच्छया क्रीडितु श्याधां यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न सर्वथा नकिशोशास्ते स्नेहातन्यत्र मोकजात तस्माज्जक्यङ्गवैक्लव्यम् अज्ञानकृतमात्मनः कथं त्वनाथ कृपणावर्तेरंस्तेच मां विना कालकर्मगुणादीनो देहोऽयं पाञ्च भौतिकः कथमन्यांस्तु गोपायेत्सर्भक्रस्तो यथा परम् अगस्तानि सहस्तानाम् अबदानि चतुष्पधां फल्गूनि तत्र मकतां जीवो जीवस्य जीवनं तथितं भगवान् राजन्नेक आत्मा आत्मनां स्वदृक् अन्तरोऽनन्तरो भाति पश्यतं माययोरुधा द्य महाराज भगवान् भूतभावनः कालरूपोऽवतीर्णो स्याम् अभावाय सुरद्विषां निष्पादिधम् देवकृत्यम् अवशेषं प्रतीक्षते तावद्द्यूयम् अवेक्षध्वं भवेत्या धृतराष्ट्रसह भ्रात्रा घान्तार्या च स्वभार्यया दक्षिणेन हिमवतऋषीणाम् आश्रमं गतः श्रोधोभिः सप्तभिर्या वै स्वर्धूनि सप्तधाव्यधाद सप्तानां प्रीतये नाना सप्तश्रोतप्रचक्षते स्नात्वा अनुशवनं तस्मिन् कृत्वा शाग्नीं यथा अभक्ष उपशान्तात्मा स आस्ते विगधैः चितासनो जिदासनो जितस्वासप्रत्याकृतक्षटीन्द्रियः हरिभावनयाध्वस्थ रजसत्त्वतमो मलः विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाभ्यथम् ब्रह्मणी आत्मानम् आधारे परमिव अम्बरे त्वदस्तमाया गुणो निरुद्ध निरुद्धकरणाशयः निवर्तिता किलाकार आस्ते स्थाणुरीवाचलः तस्यान्तरायो मयि वाभुः संन्यस्ता किल कर्मणः स राजन् परतः पञ्चमेघनी कलेवरं हास्यति स्वं भविष्यति, भस्मीभविष्यति दह्यमाने घ्निभिर्देहे पत्यु पत्नीसहोढजे बहिः स्थिता पतिं साध्वीतमग्निमनुवेष्यति विदुरस्तु दताश्चर्यं निशाम्य कुरुनन्दन हर्षशोकयुतस्तस्माद्घन्तातीर्थनिषेवकः इत्युक्त्वा दारुखत्स्वर्गं नारथः सगधुम्बुरुहो युधिष्ठिरो वचस्तस्य हृदि कृत्वा जगाश्चुषः इति श्रीमद्भगवते महापुराणे प्रथमस्कन्ते नैमिषोपाघ्याने त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द